श्रीमद्भागवत् महापुराणं दसंस्कन्धं द्विसप्ततितमोऽध्यायः श्रीशुकुवाच स्वरैराकृतिभिस्तां सुप्रकोष्ठैर्याहतैरपि राजन्यबन्धनुविज्ञाय दुष्टपूर्वाणि चिन्तयत् राजन्यबन्धवोचेते ब्रह्मलिङ्गानि विव्रती ददामि भीक्षितं तेभ्य आत्मानम् अपि दुःस्थं बलेर्णुः श्रुयते वितता विघ्ं कल्मषा अयसर्व्याद्भ्रंसितस्यापि विप्रव्याजेन विष्णुना श्रियं जिषे सतेन्द्रस्य विष्णुमे द्विजिरूपिणी जानन्नपि महिं प्रादाद् वार्यमाणोऽपि धैत्यराट् जीवता ब्राह्मणार्थाय कोण्व्यर्थ शत्रबन्धुना देहेन पातमानेन नेहता विपुलम्यसः इत्युदार महिप्राह प्राह कृष्णार्जुनविकोदरान् देवि प्राव्रियतां कामो ददाम्यात्मशिरोऽपि वः श्रीभगवानुवाच युद्धं नो देहि राजेन्द्र द्वन्द्वसो यदि मन्यसे यद्धार्थिनो भयं प्राप्ता राजन्यानान्नकाङ्क्षिणः असौ विकोदरपार्सन्तस्य भ्रातार्जुनो ह्यम् अनयोर्मातुलेयं कृष्णं जानेहि ते रिपुम् एवमावेदितो राजा जहासोच्चैस्वमागत आह चामर्षितो मन्दा युद्धं तर्हि ददामिव न युधिविम् विक्लवचेतसां मथुरां सपुरीं त्यक्त्वा समुद्रं शरणं गतः अयं तु वयसा तुल्यो नातिसत्त्वो न मे अर्जुनो न भवेद्योद्धा भीमस्तुल्यबलो मम इत्युक्त्वा भीमसेनाय प्रादाय महतीं गदां द्वितीयां शयमादाय निर्जगाम पुराद्बहि ततः समे खले वीरौ संयुक्तां वितरेतरौ जग्नतुर्वज्रकल्पाभ्यां गदाभ्यां रणदुर्मदौ मण्डलानि विचित्राणि सव्यं दक्षिणमेव चरतो शुशुभे युद्धं नटयोरिवरङ्गिणोः तत ततश्चटाशब्दो वज्रनिस्पेशसन्निभ गदयो क्षिप्तयो राजन्दन्तयोरिव दन्तिनोः देवै गदे भुजवेन निपात्यमाने अन्योन्नतो सङ्कटीपादकरोरुजतृन् चूर्णे बभूव तु रुपे यथार्कशाखे संयुध्यतोर्द्विर्दयोरिव दीप्तमन्वयो इत्थं तयोः प्रहृतयोर्गदयोर्निवीरौ क्रुद्धौ समुष्टिभिर्य स्पर्शैरपिष्टाम् शब्दस्तयो प्रहृतो रिभयोरिवासी निर्घातभज्रपरसतजन्तलताडनोत्थ तयोरेवं प्रहरतो समशिक्षा बलौ जसौ निर्विशेषमधुम् अभुद्युद्धम् अखिलजवयोरिप एवं तयोर्महाराज युद्धतो सब्दविंशति दीनानि निर्गस्तत्र सृहद्विनशी तिष्ठतो एकदा मातुलेयं वैब्राहराजन्विकोदरः न शक्तोऽहं जरासन्धं निर्जेतुं युधि माधव शत्रो जन्म मृतिविद्वान् जीवितं च जराकृतं प्रार्थमाप्यायन् स्वेन तेजसां चिन्तयन् धरी सञ्चित्यारीवधोपायं भीमस्यामोघदर्शनः दर्शयामास विटुपं पाटयन्नेव संज्ञयाम् तद्विज्ञाय महासत्त्वो भीमप्रहृतां वरः गृहीत्वा पादयो शत्रुं पातियामास भूतले एकम् पादं पदाक्रम्य दोर्भ्यामन्यं प्रगीयश गुदतः पाटयामास शाखामिव महागजः एकपादोर्विषणं कटिपृष्ठस्तननाशके एकपावक्षि भो कर्णे शकले दादृशो प्रजा आहाकारो महानासिन्निहते मगधीश्वरे पूजयामासतुर्भिमं परिरभ्य जयाच्युतौ सहदेवं तत्तनयं भगवान् भूतभावन अभ्यसिञ्चदमेयात्मागदानां पतिं प्रभो मोचयामास राजन्यान्सन्रुद्धामागतेनये ते श्रीमद्भागवते महापुराणे पारमिंशां चयितायां दशमस्कन्धे उत्तरार्धे च रासन्दवधोनां द्विसप्ततितमोऽध्यायः